श्रीहरये नमः अथ चतुर्थोऽध्यायः नारदौ उवाच एवं वृतशतधृतिक् हिरण्यकशिवो रथ प्राधात्तपसा प्रीतो वरांस्तस्य सुर्लभान् ब्रह्मोवाच ता ते मे दुर्लभा पुंसान्यान् वृणीषे वरान् मम तथापि वितरां यङ्गवरान् यदपि दुर्लभान् ततो जगाम भगवानमोघानुग्रहो विभुः पूजितो सुवर्येण स्तूयमानः प्रजेश्वरैः एवं लब्धवरो दैत्यो बिभ्रत् हेममयं वपुः भगवती अकरो द्वेषम् भ्रातुर्वधं अनुस्मरन् सविजित्य विजित्यधिशः सर्वालोकांश्च त्रीन्महासुरः देवासुरमनुष्येन्द्रान् गन्धर्वगरुढोरगान् सिद्धचारणविद्याद्रान् ऋषीन् पितृपतीन्मनून् यक्षरक्षः पिशाशेषान् प्रेतभूतपतीनथ सर्वसत्त्वपदीं जित्वा वसमानीय विश्वजेत् जहारलोकपालानां स्थानानि सहतेजसा देवोध्यानश्रियाजुष्टम् अद्यास्ते स्म त्रिविष्टपं महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा त्रैलोक्यलक्ष्यं न्यायतनम् अद्युवासा किलर्धिमद्यत्र यत्र स्फाटिकुढ्यानि वैडूर्यस्तम्भपङ्क्तयः यत्र चित्रविधानानि पद्मरागासनानि च पयः पेनानि भासय्यां परिश्चताः पयस्पेनानि भासय्यामुक्ता धाम परिश्चाः कुजद्भिर्नूपुरैर्देव्यै सप्तयन्त्य इतस्ततः रत्नस्थलीषु पश्यन्ती सुधती सुन्दरं मुखं तस्मिन् महेन्द्रभवने महाबलो महामना रेमे बिवन्द्या ग्रियुगसुराधिभिः प्रतापितेरोर्जितचण्डशासनः तमङ्गमत्तं मधुनोरुगन्तिना विवृत्ततां राक्षमशेषतृष्ण्यपाः उपासतोपायनपाणिभिर्विना त्रिविस्तपो योग बलौ जसाम्पदम् जगोर्महेन्द्रासनमोजसा स्थितं विश्वावसु धुम्बुरु अस्मदादयः गन्धर्वसिद्धारुषयोस्तु मन्मुहुर्विद्याधरा अप्सरसश्च पाण्डवा स एव वर्णाश्रमिः क्रतुभिर्भूरि दक्षिणैः युज्जमानोहविर्भागान् अग्रहीत्स्वेन तेजसा अकृष्टपश्यात् तस्यासीत् सप्तद्विभवति मही तथा कामधुकात्यौस्तु नानाश्चर्यपदं नभहा रत्नाकराश्च रत्नौघां तत्पत्न्यश्चोहुरूर्मिभिः क्षारसीदुघृतक्षौद्रधतिः क्षीरामृधोदकाः शैलाध्रोणिभिः आघ्रीटं सर्वतु सुगुणान्ध्रुमाः तधारलोकपालानामेक एव पृथग्गुणान् सहित्तं निर्जितगगुभूयेकराड्विषयान् प्रियान् यतो भजोषम् भुञ्जानो नातृप्यत् अर्जितेन्द्रियः ये वै कालो महान् व्यतीयाय ब्रह्मसापमुपेयुषः तस्योग्रदण्डसंविघ्ना सर्वे लोकासपालकाः अन्यत्रा लब्धशरणाः तस्मै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः यत् गत्वा न निवर्तन्ते शान्ता सन्न्यासिनो मलाः इति ते मला इत संयतात्मानः समाहितधियो मलाः उपतस्तुऋषि केशं विनिद्रो वायुभो जनाः तेषामाविरभूत्वाणि अरूपा मेघनिस्वना सन्नाधयन्ति खगुभः अभयङ्करी मा भैष्टविबुदश्रेष्ठा सर्वेषां भद्रमस्तु वः मद्दर्शनं हि भूतानां सर्वस्वयोपपत्तये ज्ञातमेतस्य धौरात्म्यं दैतेयोपसदस्य च तस्य शान्तिं करिष्यामि कालं तावत् यथा देवेषु वेदेषु गोषु विप्रेषु साधुषु धर्मे मयि च विद्धेषु स वा निर्वैराय प्रशांताय स्वसुताय महात्मने प्रह्लादाय यदा गृह्येत् हनिष्येऽपि वरोर्जितं नारथौ इत्युक्ता लोकगुरुनाथं प्रणम्य दिवौकशः न्यवर्तन्त गतो त्वे गामे निरेसासुरं हतं तस्य दैत्यपते पुत्राश्चत्वारपरमाद्भुताः प्रग्लादो बोन्महांस्तेषां गुणैर्मखधुपासहः ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः आत्मवत् सर्वभूतानामेकप्रियसुहृत् प्रियसुहृत्तमः दासवत्सन्नतार्याङ्घ्रिक् पितृवद्दीनवत्सलहा भ्रातृवत् सत्रुवेस्निग्धो गुरुषु ईश्वरपावनः विद्यार्थरूपजन्माढ्यो मानस्तम्बविवर्जितः नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेषु अवस्तु दृक् दान्तेन्द्रियप्राणशरीरधीसथा प्रशान्तकामो रहितासुरोऽसुरः यस्मिन् महद्गुणा राजन् गृह्यन्ते कविभिर्मुहुः न ते यथा भगवदीश्वरे यं सादुघाता सदशिरिभोऽपि सुरा नृप प्रतिमानं प्रकुर्वन्ति किमुतान् ये गुणैरलम् असङ्ख्येयेर्महात्म्यं तस्य शूच्यते वासुदेव भगवती यस्य नैसर्गिकीरतिः यस्तक्रीडनको भालो झटवत्तन्मनस्तया कृष्णग्रहगृहीतात्मानभेदजगतीश्रुषम् आसीनः पर्यटन्नस्नन्स्यानः प्रपिभन् ब्रुवन् नानुसन्धत्तये तानि गोविन्दपरिरम्भितः क्वचित् रुधति वैकुण्ठचिन्ता सबले चतनः क्वचित् हसति तश्चिन्ताक्लादमुद्गायति क्वचित् न दधि क्वचित्तुत्कण्ठो क्वचित् उत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः अस्बन्तप्रणयानन्दसलीलामीलिदेक्षणः स उत्तमश्लोकपादारविन्दयोर्निवेशया किञ्चन सङ्कल्धया तन्वन्परां निर्वृतिम् तस्मिन् महाभागवते महाभागे महात्मनि हिरण्यकशिपुराजन् अकरोत् गमात्मजें युतिष्ठिरवच देवेशये तदिच्छामो वेदितुं तव सुव्रत यधात्मजाय शुद्धाय पिता पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलहान् उपालभन्ते सिषार्तं नैवागमपरोयतां किमुतानुवसान् साधून् तादृशान् गुरुदेवतान् एतत् कौतूहलं ब्रह्मन्नस्माकं विधमः प्रभो पितुः यद्वेषो मरणा प्रयोजि श्रीमद्भागवते महापुराणे सप्तमस्कते प्रह्लाद चरते चतुद्याजीवन स्मरण गोविंद गोविंद सद्गुनात्मराज की जय